मुद्गलपुराणं खण्डं नैन् यौवचरितम् अध्यायं ट्वेन्टि फोर् दक्षमुद्गलसंवादे विकल्पविजयं श्रीगणेशाय नमः शौनक उवाच चित्रं त्वं शोद वदसि नश्रुदं कुत्र चिन्मया एकं श्लोकपदं श्रुत्वा नरो ब्रह्ममयो भवद अहो पापसमाचारश्चाण्डालश्लोकसम्भवं मौद्गलस्य पदं श्रुत्वा ब्रह्मभूदो बभूवः अधो मौद्गलजम्पूर्णं माहात्म्यं कीदृशं भवेत् तद्वदस्व दयासिन्धो नाशनम् सूत उवाच चाण्डालं गृह्य नगरं प्रदी प्रदि तद्दृष्ट्वाश्चर्यसंयुक्तो यमो वेधसमागमद प्रणम्य सविधातरं जगदेवाक्यमुत्तमं विनयेन समायुक्तस्तेन सम्मानितो यमः धर्म उवाच मौद्गलस्य च माहात्म्यमद्भुतं दृश्यते मया न दृष्टं न श्रुतं नाथ कुत्रचित् सर्वसिद्धिदम् चाण्डालः पापकर्मा कश्रुत्वैकं श्लोकजं पदं ब्रह्मभूतो बभूवापि किमिदं कौतुकं विधे एवं सर्वजनाब्रह्मन्न ज्ञानेन समन्विताः ज्ञानयुक्तागमिष्यन्ति स्वानन्दं विविधात्मकाः विश्वं चराचरं श्रुत्वा क्षीणं सद्यो भविष्यति अदो यत्नपरो भूत्वा विश्वं रक्षसुखप्रदम् माहात्म्यं कीदृशं चास्य मौद्गलस्य त्वया कृतं न ज्ञायते मया स्वामिन्वदापारं किमात्मकम् धर्मस्य वचनं श्रुत्वा तं निश्वस्य निःश्वस्य शृणु विप्रेषवचनं देवबालकं ब्रह्मोवाच गणेशेन स्वभक््यर्थं रजितम् उद्गलं परम् भक्र्या सम्प्रार्थितेनेदं सर्वसिद्धिप्रदायकं तस्य माहात्म्यमुख्यं वै को जानादि सुदा किं करोमि न जानामि मौद्गलस्य प्रखण्डनं यवमुक्त्वा स्वयं ब्रह्मा देवान् सस्मारमुख्यकान् विप्रेन्द्रां समायादाः पप्रच्छुकारणं परं तेशामग्रे यदावृत्तं वृत्तं विस्तराद धर्मेण संयुधो ब्रह्मा वृत्तान्तं मौद्गले भवम् श्रुत्वा ते खेदसंयुक्ता बभूवुर्मुनिसत्तम तत्र विष्णुश्च तान् प्राह विचार्यहितकारकम् विष्णुरुवाच तुलाम् कुरु विधातस्त्वं मौद्गलेन समम्भवेद् साधनेषु यथा सर्वम् हितमात्रम् भविष्यति तच्छ्रुत्वा विविधान्येव साधनानि प्रगृह्य सः एकत्र स्थापयामासैकत्र मौद्गलकं परं तानि सर्वाणि तेनैव न समानि बभूविरे मौद्गलेन महाभागेकभावप्रधारणाद तदखेदयुद्धात् सर्वे विचारं चक्रुरादरादर्मौद्गलेन जिदं सर्वं करिष्यामः किमञ्जसा अस्य सेवनमात्रेण जन्तवो विविधात्मकाः भुक्त्वा भोगान् गमिष्यन्ति यथा ब्रह्मणि योगिनः स्वल्पकालेन विश्वं वै नष्टं सर्वं भविष्यति विहारेण विहीनाश्च भवामः वयं ततः को विघ्नो मौद्गलस्यैव कर्तव्यो येन मानवाः त्यक्त्वा पुराणं वेदाद्याः भविष्यन्त्यन्यचेतसः तदशम्भुः स्वयं प्राह भावि यदिष्य मा कुरधम विघ्न मऊद्गल सेचक्षणा अस्म विघ्न प्रधाने क्रोधयुक्तों गजानन संद्यति जगत्सर्व सेशर संशय शिव से वचन शुवा भययुक्ता सुरर्षय बभूवुस्तत्र जीवस्तानुवाच गणपं स्मरन् बृहस्पतिरुवाच गणेशेन महेशाद्या इदम् विश्वं विश्वम् मौद्गलं मौद्गलम् संशयः मौद्गले गणनाथस्य वचनं वर्तते परम् महालयान्दमे वेदं विश्वं भादि निरन्तरम् अन्यच्च मौद्गलस्यैव कदा विघ्नं भविष्यति तदेव न वचनं मुनि मुनिसतमाः अदो गणेश्वरं प्रार्थ्य विघ्नं कुरुत देवपाः मौद्गलस्य गणेशानः क्षुब्धो नात्र भविष्यदि बृहस्पतेर्वच श्रुत्वा देवाहर्षसमन्विताः मुनयस्थं महाभागं साधु साध्वब्रुवन्वचः ततस्थं विघ्नराजं ते तुष्ठुभुः करसम्पुटाः नानास्तोत्रैर्गणाध्यक्षम् प्रसन्नं चक्रुरादराद जगादतान् स्वयं सृष्ट्वा विकल्पं देवेशा भविष्यद सुखेरताः ततो ब्रह्मा गणेशान्नं स्मृत्वा सृजद तत्क्षणाद विकल्पं संशयाकारम् महातेजो युदं कलम् तं दृष्ट्वा देवा ये परे सद्यस्ते संशयेणैव युक्ता विप्र बभूविरे किम् मौद्गलेन विघ्नेशः प्रसन्नो वा भविष्यति गणेशो ब्रह्मणां नाथ देहधरो भवद रुच्यर्थं कथितं सर्वं वेदादिषु न संशयः ब्रह्म ब्रह्मणि संस्थं तत्सर्वमान्यं विशेषतः एवमुक्त्वा ययुः सर्वे स्वे स्वे स्थाने महामुने मोहिदामायया तस्य विकल्पस्य महाद्भुतम् किमर्थमगदा सर्वे किं कृतं सस्मरुर्नते विकल्पेन समायुक्ता बभूवुर्भ्रान्तचेतसः ततस्ते मौद्गलं त्यक्त्वा स्थिता सर्वे विशेषदः नानाभावपराविप्रचक्रुस्वस्वक्रियां पुनः विकल्पस्तान्विलोक्यैव हर्षयुक्तो बभूवः प्रससारत्रिलोकेषु नानासंशयकारकः तेन सर्वे जनास्त्यवा मौद्गलं विप्रसंस्थिताः एवं क्रमेण नष्टं तत्पुराणं प्रबभूवः अन्यानि तु पुराणानि वेदा सर्वाणि मुख्यकाः नष्टानि नष्टवत् कुत्रस्तिदानि स्थिता निःस्वल्पभावदः तथा कर्मविहीनं तु बभूव सचराचरं देवा दुःखयुधा सर्वे विकल्पं योद्धुमाययुः विकल्पे विकिदे नीुवीरे तदो गजान दुषुस्त पुनराकाशवाणीस्थो जगा दईदान गजानन मुद्गलाज्ञा वशा भूवा क्रियाद्मा चिर विकलो वशस्तेन भविष्यदिनसंशयः एवमुक्त्वा गणाधीशो विरराम च शौनक ततस्ते हर्षसंयुक्ता शिवविष्णुमुखामराः कश्यपाद्याययुस्तं तु मुद्गलं योगिनां वरम् प्रणम्य भावसंयुक्ताः पप्रच्छुकरसम्पुडाः विकल्प जयदम् पूर्णमुपायं स्वहृदप्रदं तेषां वचनमाकर्ण्य प्रहस्यापूज्यतान् स्वयं जगादवचनं योगी मुद्गलो माययायुधान् ॐ तत्सदिधि श्रीमदाङ्ग्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगजरिते योगामृतार्थशास्त्रे योगा दक्षमुद्गलसंवादे विगल्प विजयो नाम चतुर्विंश्योऽध्यायः ॐ